स्मिरसि क्षयारिक्षंसि त्वा पृथिवेष्टं वृष्ट्ये त्वाष्टिं जिन्व प्रभास्य रात्रिं जिन्भोभ्यस्त्वाद्रेभ्यस्वा ेन्द्रं जिन्वाधिपजलसि प्राणादत्वा प्राणं जिन्म चक्षुष जन्मव जोधा असि श्रोत्रा जत्वा श्रोत्रिवर्दसि प्रवृदसि संवर्धसि विवृदसि सखं रोहास निरोहासि प्ररोहा स्ते देवा अधिपदेनां प्रतिथात् क्रुत्वास्तो मृषविजागृश्रजत्वाज्यमथगत् स्तनातु दक्षिणास्ते देवा अधिपद जगेन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस्थास्तो मः कृषविजागिश्रजतु प्रमुखमुक्थमगत् स्तफ्नातु बृहत्सामप्रतिष्ठद्म्राट त्या देवा अधिपदज सोमो हे तेनां प्रतिशब्धा सप्तदशस्त्वा स्वामः पृथिव्या विश्वगतमलध्वीमुखमव्य स्तप्नाद्वै रूपकं सामप्रतिष्ठित्यै स्वागस्तु देशे निग् विश्वे ते देवा अधिपदजो मरुणो हे दीनां प्रतिधर्ते कपिगुंशस्त्वा स्तोमः बृहस्पतिरहे देनामृतृणवत्रयसृगं सरुत्वा स्तोमो पृथिविजागिस्रगताम्बये वाग्नि सा मने प्रतिष्ठित्य मात्रजावसन्तु विधत्ता चायमधिपतिष्ठते त्वा सर्वे निजाकस्य पृष्ठे स्वर्गे लोके तिजमानन्दसाधयन्तु अयं पुरो हरिकश्रोज रश्मिस्तस्य चेदेकर्मा तस्य रथस्मनश्च रथे चास्त ्रोतश्चासमरसस्तसयनानि ग्रामण्यौ रोचन्ते च रोचन्ते चाप् सरसौ सर्वा हेतुर्व्याघ्राहेति रजमुत्तरात् संयद्व सुस्य सुषयस्तसेनानि ग्रामण्यौ विश्वाचे च घृताचे चाप् सरसा वापो स्तेभ्यो नमस्तेनश्च नाष्टिं भोजं भेदधादयाश्चाजाय नमस्य मन्त्रस्य रक्षसेव नमेश्चेत्त्वा सादयत दिवः पृष्ठे रचस्वतीं रथस्पतिं विभोमतें प्रभूमतें परिभूमतीं दिवं द्रगं हदिवं मायुंसे स्मै प्राणाय पानाय व्यानाय दानाय प्रतिष्ठाय चरित्राय सूर्य स्वाभिपातु मह्यासेदासे अभिष्यनु यदा महः संवरणाद्व्यस्थात् आदस्य वातो अनुपाति शोचिरथस्मते वृजनम् कृष्णमस्ति अग्निर्मोर्धा दिवः कगुत्पतिः पृथिविजा अयम् अपागुम् रेतागुम् सि जन्वति त्वामग्ने पुष्करा मोर्धा कबीरजीनाम् भुवो यज्ञः स रजसश्च नेता यत्रा नयुद्भिः स च नन्दधिषे सुवर्षाञ्जिह्वामग्ने च कृषेऽहम् जवाहम् अभोधग्निः समिधा जनानाम् प्रतिधेनमिवाजते मुषासम् जह्वाजिवप्रवजामुज्जिहानाः प्रभा नवसिस्रवेना कमच्छा अवोचामधे मेध्यायव च वन्दालुवृषभा च कृष्णेः व्यविष्ठिरो नमसा स्तोमग्नौ दिवेव जनश्च गोपा अजनिश्च जाग्रविरग्निः सुदक्षस्वसे धृतप्रदेको बृहदादिविःस्पृशाजुमद्विभाजिफलतेभ्यः शुचिः त्वामग्ने अङ्गिरसो गुहाहितमन्वबिन्दम् शिश्रियाणम् वने वने स जायसे मत्स्यमानः सहो महद्वा माहुःसह सस्पुत्रमङ्गिरः यज्ञस्य केतुम् प्रथमम् पुरोहितमग्निम् नरस्त्रिरथस्थे इन्द्रेण देवे सरथकम् च बहिषसीदन्निहोता वितथा च सुक्रतुः त्वाञ्चिद्रश्रवस्तमहवन्ते विक्षुचन्दवः शोचिष्के शम्भुरप्रजाग्नेहवोढवे सखाय सम्वः सञ्जन्नामोर्जो न प्रे सहस्वते सगम् समित्यवशे वृषन्नग्ने विश्वान्य इडस्मते समिध्यसे स नो वसोऽ एनावो अग्निम् नमसोऽर्जो न पादमाहुवे प्रियन्ते तिष्ठमरज्ञस्वद्धरम् विश्वस्य धूतमृतम् सयोदतेषो विश्वभोजसा स रुद्रमत्स्वाहुरः सुब्रह्मा यज्ञः सुषमे वसूनाम् देवगुम्माधो जनानाम् उदश्च शोचिरश्चाजा जुह्वानस्य मेधुषः बुद्धोमासो अरुषासो दिविःस्पृशः समग्निन्धदेव आग्नेवायस्य गोमदीशानः सहसो यहो अस्मेधेहि जातवे दोमहि श्रवः स विधानो वसुष्कविरग्निरीडेऽन्यो हिरा एवदस्मभ्यम् पूर्वणीकदीरिः क्षपोराजन्मुदत्मनाग्नेऽवस्तो रुतोषसः सैजद्वजम्भरक्षसो दहः आदे अग्नयुधेमहिमन्तम् देवादरम् यद्ध स्यादे वनेजसे समिद्धेदयति जे शज्ञस्तोदृभ्यः भर आदे अग्नदिशा हविः शुक्रस्य ज्योतिषस्मते तुश्चन्द्रदस्त्वविष्मदेहविजवा तुभ्यम्भोजस्तोदृभ्यः भर उभयश्छन्द्रसद्विषो दरिवेः श्रेणेश आसने ोजा उच्छेट शमसस्पदुषस्तोदृभ्याभरमद्याश्वन्न स्तोमैः क्रतुम् न भद्रकुम् हृदिस्पृशम् निध्यामा तवोहैः अथाह्यग्ने क्रतो भद्रस्य साधोः रथेरुदस्य महतो पपूथ आहिष्टे स्तनयम् च सुष्मा हेभिर्नो अर्कैर्भवा नो अर्वान् सुवर्णज्योतिः अग्ने विश्वेभिः सुमना अनीकैः अग्निगुम्होतारम् मन्येदा स्वम् तम् वसो सोऽनुगुम्सहसो जातवेदसम् न जातवेदसम् यवोर्ध्वया स्वद्भरो देवो देवाच्या घृतस्य विभ्राः श्रिमनशुक्रशोचः जुह्वानस्य सर्पिषः आग्ने ध्वन्नो अन्तमःत्रादाशिवो भव रोत्स्यः सन्ध्वाचोरिष्ठदीदिवः संनाजनो न मेमहे सखिभ्यः वसुरग्निरवशुश्रवाः अच्छानक्षय्यमत्तमोरजुन्दाः भ्यान् त्वा स युजा युजागनज्ञा खाराभ्यां दे च सोऽक्षेभिस्तोमेभिश्चन्दोभिरयै पोषाद सदातानां मध्यमस्थयायमया रोग्निर्वियत्तो स्यान्तामहं प्रपद्ये सा मे शर्म च बृहस्पति स्वासा जयत् पृथ्वजा पृष्ठे ज्योतिष्पदें विश्वस्मै प्राणायपानारविश्वं ज्योतिर्गच्छाग्निस्तेऽधिपतिर्विश्वकर्मा त्वा सादय त्वन्थक्षस्य पृष्ठे ज्योतिष्पदें विश्वस्मै प्राणायपानादविश्वं ज्योतिर्जच्छ वा जस्तेऽधिपति धिपतिः पुरोवात सनिरस्यरसि विद्युत्सनिरसि सनिरस्यग्ने रुजान्यसि देवानामग्ने जान्यसि वाजोरुजान्यसि देवानाम् वाजो जान्यस्यन्तरिक्षस्य जान्यसि देवानामन्तरिक्षजान्यस्यन्तरिक्षमस्यन्तरिक्षायवा सनिराज त्वा सन्नै काय द्वा सती काय त्वा चेताज त्वा प्रचेतसे त्वा विभस्पते स्त्वाज्योतिषादित्येभ्यस्त्वर्चेत्त्वा ऋचे त्वा आद्युचे त्वा भासे त्वा ज्योतिषे त्वा यचोदान् त्वा यशसि ते चोदान् त्वा तेजशिवचोदान् त्वापयशिवच्चोदान् ोलस्कृतशिवरिवस्कृतशिप्रात्स्योर्धास्यन्तरिक्षसदस्यन्तरिक्ष सेदां सुषदसे सदश सुखं न सदसिदृ सृजास्त्वा द्रविणे सादयाम्यन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस्त्वा द्रविणे सादयामि दुशान् त्वा द्रविणे सादयामि द्रविणोदान् त्वा द्रविणे सादयामि प्राणं मे बाह्य जुर्मे पाहि विश्वाजुर्मे पाहि सर्वाजुर्मे पाह्यग्ने जग् परगम् हृण्णामदावेः साम्प्रभावहे पाञ्चजन्येष्वप्येः जग्ने वा ग्निना विश्वासा सूर्येण स्वराट्क्रत्वा यज्ञेन सौहार्देन तमोधा अन्येन गजः पृथिविदासनो दृग्भिरन्नादोपषट्कारेण साम्ना तनोपविराजा ज्योतिष्मान् ब्रह्मणा सोमपा गोभिरज्ञम् दाधारक्षत्रेण मनुष्यानश्वेन शरथेन च पथिर्तुभिः प्रभुः संवत् स्तव सानाथष्टः सोरजः सन्तनोऽपि प्रजापदर्म धाता दीक्षाजागं सविताभृत्याम् पोषासोमत्रियण्याम् वर्णपुमनध्वसुरः क्रीडमाणोऽ क्रेतस्य विविष्टः सादितो नरम् बृहस्पतिराग्नेत्मणे यजमान इन्द्राहमिद्धाने दिरासादितो विष्णुर्पावह्यजमानो ेर्मे सक्तु श्रे श्रे उन्नो रुद्राहुतो वाजुरावृतो निजक्षा प्रतिख्यादो भक्षागतः प्रणान्नाराशगुंसोऽसुरात्रिन्धुरवृषमव भ्रजान् समुद्रावगतसीलप्रप्लुत सुवर्दृशं गतः कृत्तिका नक्षत्रमग्निर्देवताग्नेरु प्रजापतेर्धातुर्चयत्वा देवता पुनर्वसो नक्षत्रमतिर्देवता ऋश्व नक्षत्रं देवता मघा नक्षत्रम् पितरो देवता फल्गुने नक्षत्र वर्जमा फल्गुने नक्षत्रम् भगो देवता हस्त नक्षत्रगं सविता देवता चित्रा नक्षत्रमिन्द्र देवता स्वासे नक्षत्रम् वायुर्देवता विशाखे नक्षत्रमिन्द्राणे देवता नो राधा नक्षत्रम् मित्रो देवतारोहिणी ेवता श्र नक्षत्रं विस्वे देवादेवता श्रवणानक्षत्रं विष्णुर्देवता श्रविष्ठा नक्षत्रं वसवो देवता सदभिषं नक्षत्रमिन्द्रो देवता प्रोष्ठपदा नक्षत्रमजयेकपा देवता प्रोष्ठपदा नक्षत्र महिर्बुध्जो देवता रेवती नक्षत्रम् भूषा देवताश्विजौ नक्षत्रमश्विनौ देवतापधर्णैर्नक्षत्रैजमो देवता न पश्चा तेजु श्च माधवश्च वासन्तिका वृतो शुक्रश्च शुचिश्चग्रेष्मावृतो नपश्च हस्यश्च वारिषिका वृतोजश्च शारदावृतो सहश्च सहस्रश्च पृथिवे चै शिरावृतो कल्पमाना इन्द्रमिव देवा अभि संविशन्तु संयच्छ प्रचेताश्चामस्योग्रा च च पितृणायमस्येन्द्रस्य ध्रुवा च पृथिवे च देवस्य च पितुर्मरुतां धर्त्रे च धरित्रे च मित्रावरुणज मेत्रस्य धातुः प्राचे च प्रतेचे स्ते नो हृदयं तुलेयं विष्मोजश्च न द्वेष्टितं भोजं भेदधा सहस्रस्य प्रमा असि सहस्रस्य प्रतिमा असि सहस्रस्य हिमा असि सहस्रस्यो असि सहस्रि सहस्रायुमा मे अग्नष्टका धेनवस्सन्त्वेका च शतं च सहस्रं च युतं च प्रयुतं च प्रयुतं चार्बुदं च न्यर्बुदं ष्टिः सहस्रमयुतमक्षीरमाणास्थामधुश्च्युतमोर्जस्वदे स्वधा विनेस्ता मे अग्नजिष्टकाधेनवः सन्तु विराजो नाम ना कामधुघा अमुद्रामुष्मिन्लोके समिद्दिशा माशजानस्सु वर्विन्मधो रथो माधवः वा त्वस्मान् आज्ञर्देवो दुष्टदे त्वस्माङ्गायचन्दसाम् विश्वरूपामो अह्णानु समुद्रोपाद इदमो नोशामभिधाुतिः शुक्रे अहन्यो दसेना इन्द्राधिपतिः प्रदादतो नाम हि क्षत्रम् विस्मतो धार सुवर्वते इदम् क्षत्रम् दुष्टनमस्तो जोनाधृष्टकम् सहसृशम् वैरोपे सामन्य तत्सके मजगत्यैनम् विक्ष्वापेशयामः विश्वे देवाः सप्तदशे नवर्थयुतम् क्षत्रगुंस लीलवातमुग्रम् धर्जे दिशाम् क्षत्रमिदम् अस्मै राष्ट्राय मन्यष्टुभासम्भृतम् सह इदम् शक्रम् मित्रवदार्द्रदामित्रावरुणालक्षतमाधिपत्यैः सम्राज्यकम् सहसाम् मे सहस्मत्सुरभे मन्दाविष्ठजानः भवस्युपाता बृहदेर्नुषक्वरे मयज्ञमवम् तु नोभृदाचेः सुपर्वते सुदुखानः पयस्पतिश्चाद्बृहस्पते दिशागुम् रन्तिरा शौषधे नागुम् संवत्सरेण सभिता नो अह्नाम् प्रेमत्सामादिच्छन्दान्दो जातशत्रुश्चो नानो अस्तु सोमत्रयस्त्रगं शे भुवनस्य पत्नि विभस्वद्वाते अभिनो गृणाहि धृतवदे सवितराधिपत्ये पयस्वदेम् तिराशानोऽस्तु ध्रुवादिशाम् विष्णुपत्न्यघोरास्येषा नासः सोजा मनोताः स्वधर्मातरि सोजवायुः सन्धुवाना वाता जगतो विष्णुपत्नी विष्णव्यचा विषयम् देशुभोजिः शिवान अस्मरितिरुपस्थे मे स्वानरो न भूर्त्या पृष्टो दिव्यनुभोद्यानुमतिरम्बितमते त्वम् जया नश्चित्त